नारदपुराणम् पूर्वार्थम् अध्यायम् सिक्स्टि सेवेन् सनत्कुमार उवाच अधवक्ष्ये देवपूजां साधकाभीष्टसिद्धिदाम् त्रिकोणं चतुरस्रं वामभागे प्रकल्प्य च सम्भूज्याश्रेण संक्षाल्य हृदाधारम् निधाय च तत्राग्निमण्डलं चेद्वा पात्रं संक्षाल्य चास्रदः आधारे नाम संस्थाप्य तत्र चेद्रविमण्डलम् क्लिममादृकापूलमुञ्चरन्पूरपेज्जलैः पत्रेजुमण्डलं प्रार्च्य तीर्थान्यावाह्यपूर्ववद गोमुद्रया मृदीकृत्य अवचेनावगुण्ठयेत् संक्षाल्यश्रयणप्रणवं तदु पर्यष्टधा जपेत् सामान्यार्कमिदं प्रोक्तं सर्वसिद्धिकरं नृणां तज्जलं किञ्चिद्दुधृत्य प्रोक्षिण्य साधकोत्तमः आत्मानं यागवस्तूनि तेन सम्प्रोक्षयेत्पृथक् आत्मवामग्रदकुर्यात् षट्कोहणां तस्री कोणकं चतुरश्रेण संवेष्ट्य संक्षाल्यार्कोदकेन च तदस्तु साधकश्रेष्ठस्तम्भयेच्छमुद्रया आग्नेयादिषु कोणेषु हृदाद्यङ्गचतुष्टयम् नेत्रं मध्ये दिक्षु चाह्रं त्रिकोणे पूजयेत्तदः मूलखण्डत्रये नाथा धरशक्तिं तु मध्यगाम् एवं सम्पूज्य विधिवदास्रं संक्षालितं हृदा प्रदेष्ठाप्यत्रिपदिकाम् मनुना मुना मम वह्निमण्डलायेदि तदोद्देश्यकदात्मने अमुकार्ध्येति तात्रां ते सनापहृदयो मे चतुर्विंशतिवर्णोऽयमाधारस्यार्चने मनुः स्वमन्त्रक्षालिदं शरं वं संस्याप्याय समर्चयेत् तारकार्ममहांस्तेदु ततो जलचराय च वर्म फट् हृदयं पाञ्जन्याय हृदयं मनेः तत्रार्कमण्डलाये द्वि द्वादशान्ते कलारमेण कलारमने अमुकार्गेदि पात्रान्ते नमो तस्त्र्याक्षि वर्णवान् सम्पूज्यतेन तत्रार्चे द्वादशार्ककलाक्रमाद तदशुद्धजलैर्मूलं विलोममातृकां पठन् शङ्गमापूरयेत्तस्मिन् पूजयेन्मनुनामुना ॐ सोममण्डलायेदि षोडशान्ते कलात्मने अमुकार्भ्यामृतायेदि हृन्मनुश्चार्ध्यपूजने तत्र षोडशसङ्ख्याका यजेश्चन्द्रमसकलाः तदस्तुतीर्थान्यावाह्य गङ्गे चेत्यादिपूर्ववद गोमुद्रया मृदीकृत्याच्छादयेन्मत्सममुद्रया कवचेनावगुण्ढ्यास रक्षेदस्त्रेण तत्पुनः छिन्दहि त्वेष्ठदेवं च तदोमुद्रा प्रदर्शयेद् शङ्गमौसलचकाख्या परमीकरणं तदः महामुद्रां योनिमुद्राम् दर्शयेत्क्रमदः सुधीः वारुडीकालिनी चैव मुख्ये मुद्रे प्रकीर्तिते गन्धपुष्पादिभिस्तत्र पूजयेदेवतां स्मरन् अष्टकृत्वो जपेन्मूलम् प्रणवम् चाष्टधा तथा शङ्का दक्षिणदिग्भागे प्रोक्षणी पात्रमादिशेद प्रोक्षण्याम् तज्जलम् किञ्चित् कृत्वात्मानम् तृधा ततः आत्मतत्त्वात्मने हृञ्ज विद्या तत्त्वात्मने नमः शिवतत्त्वात्मने हृञ्ज इत्येतैर्मनुभिस्तृभिः प्रोक्षेत् पुष्पाक्षतैश्चापि मण्डलं विधिवत्सुधिः अथवा मूलपायत्रिया पूजाद्रव्याणि प्रोक्षयेद् पाद्यार्ध्या च मनूयार्थं मधुपर्कार्थमप्युद पात्राण्याधारयुक्तानि स्थाप्य स्थापयेद्विधिना पुरः पाद्यं श्यामाकदुर्वाब्जविष्णुक्रान्तजलै स्मृतम् अर्घ्यं पुष्पाक्षतयैवै अर्थ्यं पुष्पाक्षतय वै कुशाग्रतिलःसर्षपैः गन्धदूर्वादलैः प्रोक्तं ततश्चाचमनीयकम् ज्यादिफलं च कङ्कोलं लवङ्गं च जलान्विदं। क्षौद्राज्य दधि मधुपर्क मधुपर्कसमीहितम् ये कस्मिन्नथव पात्रे पाद्यादीनि प्रकल्पयेद् शङ्करार्कार्चने शङ्खमयेनैव प्रशस्यते श्वेता कृष्णारुणापि दास्यामा रक्दासिदासिदाः रक्ताम्बराभयकराध्येया स्फुः पीड शक्रयः स्वर्णादिलिखिते यन्द्रे शालग्रामे मणौ तथा विधिना स्थापितायां अंगुष्ठादि प्रतिमायां प्रपूजयेद अङ्गुष्ठादिविदस्त्यन्तमाना स्वर्णादि धातुभिः निर्मिदाशुभदागेः पूजनाय दिने दिने वक्रां दग्धां खण्डितां च भिन्नमूर्धदृशं पुनः स्पष्टां वाप्यन्त्यजाद्यश्च प्रतिमां नैव पूजयेत् बाणादिलिङ्गे वाभ्यर्चेत् सर्वलक्षणलक्षिते मूलेन मूर्तिं सङ्कल्प्य ध्यात्वा देवं यथोदितम् आवाह पूजयेत् तस्यां परिवारगणैः सह शालग्रामे स्थापितायां नावाहनविसर्जने पुष्पाञ्जलिं समाधाय ध्यात्वा मन्त्रमुदीरयेद आत्मसंस्तमजं शुद्धं त्वामहं परमेश्वर अरण्यामिव हव्याशम् मूर्तावाहयाम्यहं तवेयं हि महामूर्तिस्तस्याम् त्वाम् सर्वगं प्रभो भक्तिरेवः समाकृष्टं दीपवस्तापयाम्यहम् सर्वान्तर्यामि मे देवं सर्वबीजमय शुभं रवात्मस्थाय परं शुद्धमासनं कल्पयाव्यहम् अनन्या तव देवेश मूर्तिशक्रिरियं प्रभो सां निध्यं त्वं भक्तानुग्राहकारक अज्ञानाजु च मत्तत्वाद्वैकल्यासाधनस्य च यद्यपूर्णं भवेत्कल्पं कदधाप्यभिमुखो भव दृशा पीयूष वर्षिण्या विष्ठरे मूर्तौ भव महेश्वर अभक्तवान् मनश्चक्षुः श्रोत्रदूरायि दद्युते स्वते जपञ्चरेणाशु वेष्टितो भव सर्वतः यस्य दर्शनामिच्छन्ति देवा स्वाभीष्टसिद्धये तस्मै ते परमेशाय स्वागतं स्वागतं च मे कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम आगतो देवदेवे स सुखागदमिदं पुनः यद्भक्तिलेप्तः सम्पर्कात् परमानन्दसम्भवः तस्मै मे परणाब्जाय पाद्यं शुद्धाय कल्प्यते वेदानामभिवेदाय देवानां देवदात्मने आचामं कल्पयामि च शुद्धानां शुद्धिहेतवे तापत्रयहरदिव्यं परमानन्दलक्षणं तापत्रयविनिर्मुक्रियै तवार्घ्यं कल्पयाम्यहं सर्वकालुष्यहीनाय परिपूर्णसुखात्मने मधुपर्कमिदं देव कल्पयामि प्रसीद मे अवच्छिष्टोऽप्यशुचेर्वापि यस्य स्मरणमात्रतः शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकं स्नेहं गृहाणस्नेहेन लोकनाथमहाशय सर्वलोकेषु शुद्धात्मन् ददामि स्नेहमुत्तमं परमानन्दबोद्धाग्धिनिमग्ननिजमूर्तये साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीषते सहस्रं वा शतं वापि यदा शक्त्या धरेण च निज गन्धपुष्पादिकैरीशमनुनां चाभिषिञ्चेद मायाचित्रपडच्छन्ननिजगुह्योरुतेजसे निरावरणविज्ञानवासस्ते कल्पयाम्यहं यमाश्रित्य महामाया जगत्सम्मोहिनी सदा तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् रक्तं शक्त्यार्कविघ्नेषु पीदं विष्णौ सिदं शिवे तैलादिदुषितं जीर्णं सच्छिद्रं मलिनं त्यजेद यस्य शक्तित्रयेणेदं सम्प्रीदमखिलं जगद यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते भूषणानि विचित्राणि कल्पयाम्यमरार्चित परमानन्दसौरभ्यपरिपूर्णदिगन्धरं गृहाण परमगन्धकृपया परमेश्वर तुरीयवनसम्भुदं नानागुणमनोहरम् अमंदसौरभपुष्पं गृह्यदामिदमुत्तमं जपाक्षतार्कधत्तूरान्विष्णौ नैवार्पयेत् क्वचित् चेतकीं कुटजं कुन्दं बन्धूकं केसरं जपाम् मालधीपुष्पक चैव नार्पये तु महेश्वरे माधुलिङ्गं च तगरं रवौ नैवार्पयेद्वचिद शक्रौ दुर्वार्कमन्दारान् गणेशे तुलसीं सरोजिनी दमनकौ तदा मरुभगस्कुशः विष्णुक्रान्तां नागवल्ली दात्री मुनि धात्रीमुनियुधानां च पत्राय देवार्चनं चरेद कदली बदरी धात्री तिं तिण् बीजपूरकम् आम्रदाडिमज्जम्बीर जम्बूपनसभूरुहाः यदेशां दुफलैकुल्यादेवतापूजनं बुधः शुष्कैस्तु नार्चयेद्देवं पत्रैः दात्री धात्री कदिरभितमालस्य दलानि च छिन्नभिन्नान्यपि मुने न दूष्याणि जगुर्बुधाः पद्म मामलकं तिष्ठे शुद्धं चैव दिनत्रयं सर्वदा तुलसीशुद्धा बिल्वपत्राणि वै तथा पलाशकाशकुसुमैस्तमलतुलसीदलैः चात्रिदलैश्च चा। दूर्वाभिर्नार्चयेजगदम्बिकाम् नार्पयेत् कुसुमम् पत्रं फलम् देवेह्यधोमुखम् पुष्पपत्रादिकं विप्र यदोत्पन्नं तथार्पयेद् वनस्पतिरसं दिव्यं गन्धाढ्यं सुमनोहरं आख्रेयम् देवदेवेश्य धूपम् भक्त्या गृहाममे सुप्रकाशमहादीपं सर्वदा किमिरापहं कृतवर्तिसमयुक्तं गृहाण मम सत्कृतम् अन्नं च दुर्विधं स्वादुरसैषड्भिस्समन्वितं भक्त्या गृहाण मेदेव नैवेद्यं तुष्टितं सदा नाकवल्लीदलं श्रेष्ठं पूग खदिरचूर्णयुग कर्पूरादि सुगन्धाढ्यं यद्दत्तं तद् गृहाण मे दद्यात् पुष्पाञ्जलिं पश्चात् कुर्यादावरणार्चनम् यदा शाभिमुखो भूत्वा पूजनं तु समाचरेद सैव प्राचीदु विज्ञेय तदोन्या विदिशो दश केशरेष्वग्निकोणादिहृदयादीनि पूजयेद नेत्रमग्रे दिक्षु शास्त्रम् क्रमं शुक्लश्वेद चिदश्याम कृष्णरक्तार्चिषक्रमाद वराभयकराध्येया स्वदिक्ष्वं गशक्रयः अमूकावरणां ते दुदेवतायिरि संवदे सालङ्कारास्ततः पश्चात् सां गा सा सवाहना सायुधाश्च तदसर्वोप सर्वोपचारकैः सम्पूजितास्तर्पिताश्च वरदात्सं त्विदं पठेद मूलान्तेज समुञ्चाल्य दिवतायै निवेदयेद् अभीष्टसिद्धि मे देहि शरणागद वत्सल भक्तया समर्पयेतुभ्य ममका वरणार्चनम् इत्युञ्चार्यक्षिपेत् पुष्पाञ्जलिं देवस्य मस्तके तदस्त्वभ्यर्चनीया स्युः कल्पोक्ताश्चावृद्धीक्रमाद सा युधांस्तद इन्द्राद्यान् स्वस्वदिक्षुप्रपूजयेद इन्द्रो वक्निर्यमो रक्षो वरुणः पवनो विधुः ईशानोदविधिश्चैव मधस्तात्पन्नगाधिपः ऐरावधस्ताधा मोषो महिषप्रेदस्तिमिर्मृगः वाजीवृषो हंसकूर्मौ वाहनानि विदुर्बुधाः वज्रं शक्तिं दण्डकङ्गौ पाशां कुशगदा अपि त्रिशूलं पद्मचक्रे चक्रमादिन्द्रादिहेदयः समाप्यावरणार्च्यां तु देवतारार्तिकं चरेद शङ्खतोऽयं परिक्षिप्योद्बाहुर्नृत्यन्पदेक्षितौ दण्डवञ्चाप्यधोद्धाय प्रार्थयित्वा निरे निजेश्वरं दक्षिणे तण्डिलं कृत्वा तत्र संस्कारमाचरेद मूलेनेक्षणमस्त्रेण प्रोक्षणं ताडनं पुनः कुशैस्तद्वर्मणाभ्युक्ष्य पूज्य तत्र न्यस्येद्वसुम् प्रदाप्य तत्र जुहूया ध्यात्वा चैवेष्टदेवता महाव्याहृदिभिर्यस्तु समस्ताभिश्चतुष्टयम् जुहूया सर्पिषा भक्ता स्थिलैर्वा पायसेन वा सकृदै साधकश्रेष्ठपञ्चविंशतिसङ्ख्यया पुनर्व्याहृदिभिर्हृत्वा गन्धाढ्यैपुनरर्चयेद् देवं संयोजयेन्मूत्तौ तदो वह्निं विसर्जयेत् भोभो वह्ने महाशक्रे सर्वकर्मप्रसाधककर्मान्तरेऽपि सम्प्राप्ते सान्निध्यं कुरु सादरम् विसृज्याग्निदेवतायै दद्यादाचमनीयकम् अवशिष्टे न हविषा गन्धपुष्पाक्षतान्वितं देवतापार्षदेभ्योऽपि पूर्वोक्तेभ्यो बलिं ददेत ये रौद्र रौद्रकर्माणो रौद्रस्थाननिवासिनः योगिन्यो शुग्ररूपाश्च गणानामधिपाश्च ये विघ्नभूदास्तथा चान्ये दिग्विदिषु समाश्रिताङ्गः सर्वे ते प्रीतमनस्सप्रतिगृह्णन्मं बलिंत्यष्टदिक्षु दत्वा च पुनर्भूदबलिं चरेत पानीय ममृदीकृत्य मुद्रया धेनुसंज्ञया देवता ह्याकरे दद्यात् नैवेद्यं च तदो दद्यात् तत्तदुच्छिष्टभोजिने महेश्वरस्य चंडेशो चण्डेशो विश्वक्सेनस्तथा हरेः चाण्डां श्युस्तरणेर्वक्रतुण्डश्चापि गणेशिदुः शक्तेरुच्छिष्टाण्डाली प्रोक्ता उच्छिष्टभोजिनः ततो ऋष्यादिकं स्मृत्वा कृत्वा मूलषडङ्गकम् जप्त्वा मन्त्रं यथाशक्तिदेवतायै निवेदयेद गुह्यादिगुह्यगुप्ता त्वं गृहाणास्मत्कृतं जपद सिद्धिर्भवतु मे देव त्वत्प्रसादा त्वयि स्थिता ततः परं मुखं कृत्वा पुष्पै प्रपूजयेद् दोर्भ्यां पद्भ्यां च जानुभ्यामुरः सा चिरः सादृशा मनस्सा वचसा चेद्विप्रणामोऽष्टाङ्गीरिदः बाहुभ्यां च स जानुभ्यां शिरस्सा वचसापि वा पञ्चाङ्गकप्रणामः स्यात्पूजायां प्रवरावुभौ नत्वा जदण्डवन्मन्त्री तदः कुर्यात्प्रदक्षिणाः विष्णुसोमार्कविघ्नानां वेदार्थें द्विद्रिवह्नयः तदस्तोत्राधिगं मं त्रीप्रपढेद्धक्तिपूर्वकम् इदपूर्णं प्राण प्राणबुद्धिदेहधर्माधिकारदः जाग्रत्स्वप्न सुश्रुत्यं देवस्थासुमनः वदेद वाचाहस्ताभ्यां च कद्भ्यामुदरेण ततः परम् सुष्णान्ते यस्मृतं पश्चाद्यदुक्तं यत्कृतं तदह तत्सर्वं च तदो ब्रह्मर्पणं भवद् तद्वयम् मां मदीयं च सकलम् विष्णवेच च समर्पये तारं तत्सदो ब्रमर्पणमस्तु मनुर्मदः प्रणवाद्योष्टवस्वर्णो ह्यनेनात्मानमर्पयेद् अज्ञानाद्वा प्रमादाद्वा वैकल्यात् साधनस्य च वा तत्सर्वं क्षन्तुमर्हसि द्रव्यहीनं क्रियाहीनम् मन्द्रहीनम् मयान्यधा कृतं यत्तत्क्षमस्वेश कृपया त्वम् दयानिधे यन्मया क्रियते कर्म जाग्रस्वप्रसुषुप्ति तु तत्सर्वं तावगी पूजा च मे प्रभो भूमौ स्खलितपादानां भूमिरेवावलम्बनं त्वयि जादापराधानां त्वमेव शरणं प्रभो अन्यथा शरणं नास्ति त्वमेव शरणं मम तस्मात् कारुण्यभावेन क्षमस्वपरमेश्वर अपराधसहस्राणि क्रियन्ते हर्निशं मया दासोऽयमिति मां मत्वा जगदां पदे आवाहनं न जानामि न जानामि विसर्जनं पूजां चैव न जानामि त्वं परमेश्वर सम्प्रार्थ्यैवं तदो मं त्रीमूलान्धे श्लोकमुञ्चरेत् गच्छ गच्छ परं स्थानं जगन्मय यन्न ब्रह्मादयो देवा देवाजानन्दिज सदाशिवः यदि पुष्पाञ्जलिं दत्वा ततः निधाय देवं साङ्गं च स्वीय दृत्सरसीरुहे शुषुम्नावर्त्मना पुष्पमाख्रायोद्वासयेद्बुधः शङ्खचक्रशिलालिङ्गविघ्न सूर्यद्वयं तथा शक्तित्रयम् नचैकत्र चैकत्र पूजये दुःखकारणम् सर्वव्याधि सर्वव्याधिविनाशनं सर्वपापक्षयकरं विष्णुपादोदकं शुभं तत्तद्भक्ता गृहीतव्यं तन्नैवेद्य निवेदितम् अग्राह्यं शिव निर्मल्यं पत्रं पुष्पं फलं जलम् शालग्रामशिलास्पर्शात् सर्वं यादि पवित्रतां पूजा पञ्चविधा तत्र कथिता नारदाखिलैः आधुरीसौदूकी त्रासी साधनाभाविनी तथा दौर्बोधि च मादासां लक्षणानि शृणुष्वमि रोगादियुक्तो नश्रायान्न जपेन्न च पूजयेद् दे। विलोक्यपूजां देवस्य मूर्तिं वा सूर्यमण्डलं प्रणम्या द कुमां जलिं रोगे निवृत्ते स्नात्वा पूजयेद्गुरुम् त्वत्प्रसादागन्नाथ जगत्पूज्य दयानिधे पूजाविच्छेददोषो मे मास्त्विधि प्रार्थयेत् तम् द्विजानपि च सम्पूज्य यथा शक्रिया प्रतोष्य तेभ्यश्चाशिषमादाय दे देवम् प्राग्वत्तदोऽर्चयेद आधुरीकथिदाह्यशासो दे दिख्यदधि दि निगद्यते सूतकम् द्विविधम् प्रोक्तं जादाख्यम् मृदसंज्ञकम् तत्र स्नात्वा मानसीम् तु कृत्वा सन्ध्याम् समाहितः मनसैव यजे देवं मनसैव जपेन्मनुं निवृत्ते सूतके प्राग्वत्सम्पूज्य च गुरुं द्विजान् तेभ्यश्चाशिषमादाय तदो नित्यक्रमं चरेत् येषादु सौतिकी प्रोक्ता त्रासी चाध निगद्यते दुष्टेभ्यस्त्रासमापन्नो यथा लब्धोपचारकैः मानसैर्वै यजेदेवं त्रासी सा परिकीर्तिता पूजासाधनवस्तूनाम सामर्थ्येतुः सर्वतः पुष्पैपत्रैर्फलैर्वापि मनः सा मनसावा। यजेद्विभुं साधनाभाविनी ह्यशा दौर्बोधिं शृणु स्त्रियो वृद्धास्तथा बाधा मूर्खास्तैस्तु यदाक्रमं क्रमं यथा ज्ञानकृता साधु दौर्बोधीति प्रकीर्तिदा एवं यथा देवपूजा विहीनो यः स गच्छेन्नरकं ध्रुवं वैश्वदेवाधिकं कृत्वा भोजये द्विजसत्तमान् देवे निवेदिदं पश्चाद्भूं मजीद स्वगणैस्वयम् आचम्याननशुद्धिं च कृत्वा तिष्ठेत् कियत्क्षणम् पुराणमित शुणुयास्वन सह सदस्युक सचरेद न सांगयिकुर्मदेर्जाते फल बृहदीयुराणे पूर्वभागे बृहदुपख्या देवपूजा निपण नाम सप्तम ओं